हरि श्री सीतारामचन्द्राभ्यां नमः अथ श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डे त्र्यधिकशततमः सर्गः श्रीरामकर्तृकम् रावणस्य भर्सनम् रामेण आहतस्य रावणस्य तदीय सारथिना रणाद्बहिपनयनम् शतो तेन तदा क्रोधात् काकुत्स्थेन दितो रावण समरश्लाघी महाक्रोधमुपागमयत् स दीप्तनयनो मर्षात् चापं मुद्यम्य वीर्यवान् अभ्यतर्य सुसंक्रुद्ध राघवं परमाहवे बाणधारा सहितै रतो य राघवं रावणो बाणे तटाकं मिवपूरयन् शरजालेन धनुर्मुक्तेन संयुगे महागिरिवाकम्प्य काकुत्स्थो न प्रकम्पते स शरीशरजालानि वारयन् समरे स्थितः गभर्तीनि वधु सूर्यस्य प्रतिजग्राह वीरिवान् ततः क्षिप्रहस्त निशाचर है निजघनो क्रुद्ध राघवस्थ महात्म स शोणी सामदिग्ध समणग्रज दृष्ट फुल्ल व्ये सुमान किंचुक द्रुम शराबीघात संरध सौभग्राह सायकुत्थ सुतेज युगान्तादित्यवर्चसः ततोऽन्योन्यम् तु संरब्धौ तौ भौ राम रावणो समरे नोपालक्षयताम् तदा तत क्रोधसमाविष्टो रामोदशरथात्मजः उवाच रावणम् वीर प्रहस्य परुषम् मम भार्या जनस्थानात् अज्ञानात् रक्षसाधम् हृता ते विवशा यस्मात् तस्मात् तं नासि वीर्यवान् मया विरहिताम् दीनां वर्तमानाम् हवने वैदेहिं प्रसभम् भृत्वा शूरोऽहमिति मन्यसे स्त्रिशुषो रविनाथासु वरदाराभिमर्जनम् कृत्वा कापुरुषम् कर्म शूरोऽहम् इति मन्यसे भिन्नमर्याद निर्लज्ज चारित्रेश्वनवस्थित दर्पान् मृत्युमुपादाय शूरोऽहम् इति मन्यसे शूरेण धनदभ्रात्रा बलैः स च श्लाघनीयम् कर्म यशस्व च कृतं उत्से उत्सेरा विपन्न गर्तित कर्मण प्राही तुम फल शूरोहमी आत्मा अवगछसी दुर्मते न लज्जा से सीता चौरव व्यपकर्ष तदि मध सीता धर्मिताबला तरन्तु खरं पश्ये तदा मयकै हतः नित्यासि मम मन्दात्मन् चक्षुर्वीचयमागतः अद्य त्वां सायकै तीक्ष्णये नयामसाधनम् अद्य ते मरछिन्नं शिरोज्वलितकुण्डलम् क्रौव्यभाव्यपकर्षन्तु विकीर्णं ऋणपांशुषु निपत्य गृधास्ति क्षिप्त क्षिप्तस्य रावण पिबन्तूरुधिरं तर्शात् बाणशल्यान्तरोत्थितम् अद्य मद्बाणभिन्नस्य गतासोपतितस्य ते कर्षन् तन्त्राणि पतगा गुरुमन्त इवोरगान् इत्येवं स राक्षसेन्द्रं तमेपस्थं शर्वर्षेयवाकिरेत् बभूव द्विगुणं वीर्यं बलं हर्ष च संयोगे रामस्यास्त्रबलं चैव शत्रुर्निधनकाङ्क्षिणः प्रादुर्बभूवरस्त्राणि सर्वाणि विदितात्मनः प्रहर्षा च महातेजा शीघ्रहस्ततरो भवेत् शुभान्येतानि चिह्नानि विज्ञायात्मगतानि सह भूयैवादयद्रामो रावणं राक्षसान्तकृत् हरीलां चाज्मनिकरै शर्वर्षै च राघवात् हन्यमानो दशग्रीवो विहूर्ण हृदयो भवत् यदा च शत्रं नारेभि न च शरासनम् नास्य प्रत्यकरोद्वीर्यम् विक्लवेनान्तरात्मना क्षिप्ता चाशुशरास्तेन शस्त्राणि विविधानि च मरणार्थाय वर्तन्ते मृत्युकालोऽभ्युवर्तत सूत्रस्तु रथने तास्य तदवस्थम् निरीक्षितम् शनर्युद्धाद् सम्भ्रान्तो कथम् तस्य अपवाहयत् रथं च तस्या स जेन सारथि निवर्य भीमं जलद स्वनम् तदा जगामभीत्या समदा पतिम् निरक्तवीर्यं पतितं समीक्ष इत्यर्थे श्रीमद् रामायणे वाल्मीकि अधिकारे युद्धकाण्डे श्रेयसीकशततमः सर्गः श्रीसीतारामचन्द्रार्पणमस्तु